पाठान्तरे तु वैशम्पायन उवाच एवम् निर्दिश्य च आत्मानम् उवाच युधिष्ठिर उवाच्यति हत्वा क्रोधवशांस्तत्रा पर्वते गन्धमादने यक्षान् क्रोधाभिताम् राक्षान् राक्षसांश्चापि बकम् राक्षस बकम राजानम् भीषणम् पुरुषादकम् जग्निवानसि कौन्तेया ब्राह्मणार्थमरिन्दम क्षेमा चाभयसंवीता ह्येकचक्रा त्वया कृता हिडिम्बञ्च महावीर्यम् किर्मीरम् चैवराक्षसम् त्वया हत्वा महाबाहो वनम् निष्कण्टकम् कृतम् गृकोदरविराटे त्वं रंस्यसे केन हेतुना शान् क्रोधाभितां राक्षान् राक्षसांश्चापि पौरुषान् प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि